श्रीहरे नमः अथ दसमोऽध्यायः श्रीशुक उवाच रघुस्तस्मात् पृथुश्रवाः अजस्ततो महाराजस्तस्माद् दशरथो भवन् तस्यापि साक्षाद्ब्रह्ममयोहरिः अंसांसेन च दुर्धाघत् पुत्रत्वं प्रार्थितः सुरैः रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया तस्यानुचरितं राजन् ऋषिभिस्तत्त्वदर्शिभिः श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुकुः गुर्वर्ते त्यक्तराज्यो व्यचरत् अनुवनं पद्मपद्भ्यां प्रियायाः वाणिस्पर्शसाक्षमाभ्यां मृजितपदरुजो यो हरिन्द्रानुजाभ्यां वैरूप्याचूर्पणाख्याः प्रियविरहरुषारोपितभ्रुविजृम्भ त्रस्ताब्धिर्बत्तसेतु कलदवदहनः कोशलेन्द्रोऽवतात्महा विश्वामित्राध्वरे येन पश्यतो लक्ष्मणस्यैव हता नैरृतभुङ्गवाः यो लोकवीरसमितौ धनुरैसमुग्रं सीता स्वयंवरगृहे त्रिशतोपनीतम् इवेशु यष्टिं सज्जीकृतं नृप विकृष्यपभज्ज जिद्वानुरूपगुणशीलवयोऽङ्घरूपां सीताभितां श्रियमुरस्य विलब्धमानां मार्गे व्रजन् भृगुपतेर्व्यनयत्प्ररूढं दर्पं महीमकृत यस्त्रिरराजबीजां यः सत्यपासपरिवीत श्रैणस्य चापि शिरसा जगृहेश भार्यः राज्यं श्रियं प्रणयिन सुकृतो निवासं त्यक्त्वा यौवनमसूनिवमुत्तसङ्घ रक्षस्व सूर्यकृतरूपमशुद्धबुद्धेः जज्ञे चतुर्दशसहस्रमपारणीय कोदण्डपाणि अटमान उवासकृच्छरम् सीताकथाश्रवणदीपितहृच्चयेन सृष्टं विलोक्य नृपते दशकन्धरेण जज्ञेऽद्भुतैर्नवपुषाश्रमथोपकृष्टो मारीचमासु विशिकेन वैदेहराज दुहितरि अपयापिताया भ्रात्रा वने कृपवणत्प्रियया वियुक्ता स्त्रीसङ्गिनां गतिमिति प्रतयंश्च चार धक्त्वात्मकृत्य हतकृत्यमहत् गबन्धं सख्यं विधाय कपिभिर्दयिता प्लवकेन्द्रसैन्ये वेलामगात्समनुजों जपवार्चिदाङ्घ्रीहें यत्रोषविभ्रमविवृत्तकटाक्षपाथ सम्भ्रान्तनक्रमकरो भयगीर्णघोषः सिन्धु स्थिरस्यर्हणं परिगृह्यरूपे पादारविन्दमुपगम्य न त्वां जटदियोनु विधाम भूमन् कूटस्थम् आदिपुरुषं जगतामदीशं यत्सत्वतः सुरगणारजसः प्रजे स मन्योश्च भूतपयः भवान् गुणे कामं प्रया कि जगि विश्रवसोभमेहं त्रैलोक्यरावणमवाप्नुकि वीरपत्नीम् पत्नीकि सेतुमिह ते यशशो वितत्यै गायन्ति दिग्विजयिनोऽयमुपेत्य भूपाः पद्वो ददौ सेतुं कभीन्द्रकरकम्पितभूरुहाङ्गैः सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् लङ्का विवेक्षणदृशा विसदग्रदग्धा सावानेन्द्रफलरुद्धविहारकोष्ठ श्रीवद्वार गोपुरसधोवलभीविटङ्का निर्भज्यमानधिषणध्वज हेमकुम्भ शृङ्गाटका गजकुलैर्हृदिनीव गूर्णा रक्षः पतिस्ततवलोक्यनिकुम्भकुम्भ धूम्राक्षदुर्मुखसुरान्तनरान्धकादीन् पुत्रं प्रगस्थम् अधिकाय विगम्बनादीन् प्रासृष्टिशक्तिशरतोमरखड्गदुर्गा सुग्रीवलक्ष्मणमरुत्सुदघन्तमाधन् नीलाङ्गदर्शपनसादिभि अन्विदोकाद ते नीकपारकुभतेरबिभत्य सर्वे द्वन्द्वम्बरूतम् इब भक्तिरतास्वयो दैह्ये जग्नोर्द्रमैर्गिरिगदेशुभि अङ्गदाध्या सीताभिमर्सत मङ्गलं रावणे सान् रक्षः पतिस्वभनलष्टि अवेश्य रुष्ठ आहृत्य यानकमधाभिससार रामं अघनन्ति सितैषुरब्रैहे रामस्तमाघपुरुषातपुरीशयन् कान्तासमक्षम् असथापहृता स्वबत्ते त्यक्तत्र पस्य फलमद्य जुगुप्सि तस्य यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः एवं शिपन्धनुषिसन्धितमुत्ससर्ज बाणं स वज्रमिव तत् हृदयं हा केति जल्पति जने सुक्रीदीव रिक्तः ततो निष्क्रम्य लङ्घायां यादु धान्यः सखस्रसहा तस्मिन् प्ररुदद्यबुभा द्रवन् स्वान् स्वान् बन्धून् परिष्यज्य अर्धितान् रुरुदुसुस्वरं दीना नन्द्य आत्मानमात्मना हा हतास्म वयं नाथ लोकरावण रावण कं यायाचरणं लङ्का त्वद्विहीना नैवं वेदमहाभाग भवान् कामवसं तेजानुभावं सीताय येन नीतो दसामि मां कृतैषा विधवालङ्का वयं च कुलनं धन देहक्रतोन्नं घृत्राणाम् श्रीसुकौवाच स्वानाविभीक्षणश्चक्रे कोसलेन्द्रानुमोदितः पितृमेदविधानेन यथोक्तं साम्परायिकं तथो ददर्श भगवान् अशोकवनिकाशमे क्षामां स्वविरहव्याधिं सिंसपामूलमास्तिताम् रामः प्रियतमां भार्या दीनां वीक्ष अन्वकम्पथ आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्गरोभ्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः विवीक्षणाय भगवान् ध रक्षो गणेशधा लङ्कामायुश्च कल्पान्तं ययौ शीर्णव्रतः पुरीम् अवकीर्यमाणः कुसुमैर्लोकपालार्पितैः पथि भ्रातरं वल्कलाम्भरम् महाकारुणिकोतप्य जटिलं स्तण्डिले सयं भरतः प्राप्तमाकर्ण्यं पौरामाद्यपुरोहितैः पादुके शिरसि नस्य रामं प्रद्युत्यथोऽग्रजं नन्दिग्रामात् ब्रह्मघोषेण च पठद्भिर्ब्रह्मवादिभिः स्वर्णकक्षपता गाभेर्हैमश्चित्र ध्वजैरतैः सतस्वैरुक्मसन्नाहैर्भटैः पुरटवर्मभिः श्रेणिभिर्वारमुख्याभेर्भृत्यैश्चैव भधानुघैः पारमेष्ट्यानि बुबधाया पण्यान्युश्चावनानि च पादयोर्न्यपदत्प्रेम्णा प्रक्लिन्नहृदये क्षणः पादुकेन स्थपुरतः प्राञ्जलिर्भाष्पलोचनः तमाश्लिष्यचिरं दोर्भ्यां रामो लक्ष्मणसीताभ्यां विप्रेभ्यो ये अर्हसत्तमाः तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः धुन्वन्त उत्तरा सङ्घान् पतिं वीक्ष उत्तरा कोशलामाल्यै किरन्तो नन्तुर्मुधा पादुगे भरदो गृह्णाश्चामरा व्यजनोत्तमे विभीक्षणसुग्रीव श्वेतश्चत्रम् मरुत्सुतः धनुर्निषङ्गांशद्रुग्न सीतातीर्थकमण्डलुम् अबिभ्रत् अङ्गतखड्गं हैमं चर्मर्क्षराण्रप पुष्पकस्थोन्वितश्चद्भ्रीभिः विरजे भगवान् राजन् ग्रहैश्चन्द्रयि वोदितः प्रातृभिर्नन्दितशोऽपि सोत्सवां प्राविसत्पुरीं प्रविश्य राजभवनं गुरुपत्नी स्वमातरं गुरून्व्यवस्यावरजान् पूजितः प्रत्यपूजयत् यादवत् समुपेयतुः पुत्रान् स्वमातरस्तास्तु प्राणास्तन्वयि वोताः आरोप्याङ्के विषिञ्चन्ध्यो बाष्पौ घै विजहुश्चुचहा कुलौ वृद्धैः समं गुरुः अभ्यषिञ्चत्यथवेन्द्रम् चतुश्शिन्तु जलादिभिः एवं कृतशिरस्नान सुवासाश्रव्यलङ्कृतः स्वलङ्कृतैः सुवासोभैर्प्रादुभैर्भार्यया बभौ अग्रहीतासनं भ्रात्रा प्रणिपत्य प्रसादितः प्रजास्वधर्मनिरता वर्णाश्रमगुणान्विताः जुगोबपितृवत्रामो मेनिरेपितरं चतं त्रेतायां वर्तमानायां कालकृतसमोऽभवत् रामे राजनिधर्मज्ञे सर्वभूतसुखावहे वनानि नद्योगिरयो वर्षाणिद्वीपसिन्धवः सर्वे कामदुका आसन, प्रजानां वरदर्शभा नादिव्याधिजराग्लानि दुःखशोकभयक्लमाः मृत्युश्चानिच्छतां नासीत् रामे राजन्य राजन्यदोषजे एकपत्नीव्रतधरो राजर्षिचरितः शुचिः स्वधर्मं गृहमेधियं शिक्षयन् स्वयमाचरन् प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती धिया ह्रिया च भावज्ञा इति श्रीमद्भागवते महापुराणे नवमस्कन्ते रामचरिते दशमोऽध्यायः सर्वत्र प्रगोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमकराजकी जय